नारदपुराणम् उत्तरार्थम् अध्यायम् 64 अथ कुरुक्षेत्रमाहात्म्यम् प्रारभ्यदे मोहिन्यवाच वसो कृपालो धर्मज्ञत्वया बहुविधा मम तीर्थराजस्य माहात्म्यम् प्रयागस्य निरूपितम् यत्सर्वतीर्थमुख्येषु कुरुक्षेत्रम् शुभावहम् पावनम् सर्वलोकानाम् तन्ममाचक्ष्वसाम्प्रदम् वसुरुवाच शृणुमोहिनि वक्ष्यामि कुरुक्षेत्रम् सुपुण्यदम् यत्र गत्वा नर सर्वपापैः प्रमुच्यते तत्र तीर्थान्यनेकानि सेवितानि मुनीश्वरैः तान्यहम् तेऽभिधास्यामि शृण्वताम् मुक्दिदानि च ब्रह्मज्ञानम् गयाश्राद्धम् गो ग्रहे मरणं तथा वास पुंसाम् कुरुक्षेत्रे मुक्तिरुक्दा चतुर्विधा सरस्वती दृशद्वत्प्योर्देवनद्योर्यदन्तरम् तम् देवसेवितम् देश्यम् ब्रह्मावर्तम् प्रचक्षते दूरस्थोऽपि कुरुक्षेत्रे गच्छामि च वसाम्यहम् एवं यः ब्रूयात् सोऽपि पापैः प्रमुच्यते तत्र वै यो वश्ये धीरः सरस्वत्या स्तडे स्थितः तस्य ज्ञानं ब्रह्ममयं भविष्यदि न वन्दे कुरुजाङ्गलम् तस्य संसेवनाद्देवि ब्रह्म चात्मनि पश्यति मोहिन्युवाच कुरुक्षेत्रम् द्विजश्रेष्ठ सर्वतीर्थाधिकम् कथं तन्मे विस्तरदो ब्रूहित्वमहम् शरणम् गदा वसुरुवाच शृणु भद्रे प्रवक्ष्यामि कुरुक्षेत्रम् महाफलम् यथा जातम् नृणाम् पापदः हनम् ब्रह्मण प्रियम् आद्यम् ब्रह्मसरः पुण्यम् तत्र स्थाने समुद्गतम् ततो रामह्रदो जातः कुरुक्षेत्रम् ततः परम् सरः सन्निहितम् तच्च ब्रह्मणा निर्मिदम् पुरा अथैषा ब्रह्मणो वेदी दिशमन्तरतस्थिता ब्रह्मणात्र तपस्तप्तम् सृष्टिकामेन मोहिनी स्थितिकामेन हरिणा तपस्तप्तम् च चक्रिणा सरप्रवेशात्सम्प्राप्तम् स्थाणुत्वम् शम्भुनापि च पितुर्वद्धाच्च तप्तेन पशुरामेण धामिनि अब्रह्मण्यक्षत्र बाधाद्येजरक्तह्रदाकृदाः तद्रक्ते न दुसन्दर्प्य कृतवांस्तत्र वैधवः रामतीर्थं तदख्यातं संजातं पापनाशनं मार्कण्डेयेन मुनिना सन्तप्तम् परमं तपः यत्र तत्र समायादा प्लक्षजादा सरस्वती सा सभाज्यस्तुदातेन मुनिना धार्मिकेणः सरसंनिहितं ब्लाव्यम् पश्चिमाम् प्रस्थिताम् दिश्यम् कुरु नादु तदकृष्टम् यावत्क्षेत्रम् समन्तदः पञ्चयोजनविस्तारम् दया सत्यक्षमोद्गमम् श्यमन्दपञ्चकम् तावत् कुरुक्षेत्रमुदाहृदम् अत्र स्नादा नरा देवि मृदा विमानमारुह्य ब्रह्मलोकं व्रजन्ति च उपवासश्च दानं च होमो सुरार्चनं अक्षयत्वं अक्षयत्वम् प्रयान्त्येव नात्र कार्याविचारणा गुरुक्षेत्रे ये मृतास्ते पुनर्भवाः ग्रहनक्षत्रताराणाम् कालेन पतनाद्भयम् कुरुक्षेत्रे मृतानाम् तु न भूयः पतनम् भवेद् देवर्षिसिद्धगन्धर्वास्तत्सरःसेवनोत्सुकाः यत्र नित्यम् स्थिता देवि रन्तुकम् नामतस्तदः तस्य क्षेत्रस्य रक्षार्थम् विष्णुना स्थापिताः पुरा यक्षःसु चन्द्रसूर्यश्च वासुकिः शम्भुकर्णकः विद्याधरः सु सभृत्यैश्चेष्टसाहस्रायैर्धनुर्बाणधरैः सदा रक्षन्ति च पुरुक्षेत्रम् वारयन्ति च पापिनः रन्तुकं तु समासाद्यक्षामयित्वा पुनःपुनः तदस्नात्वा सरस्वत्यां यक्षम् दृष्ट्वा प्रणम्य च पुष्पं धूपं च नैवेद्यम् कृत्वैतद्वाक्यमुच्चरेत तव प्रसादाद्यक्षेन्द्र वनानि सरितस्तथा भ्रमदो मम तीर्थानि मा विघ्नम् जायतां नमः यदि प्रसाद्ययक्षेशम् यात्राम् सम्यक् समाचरेत वनानां चापि तीर्थानाम् सरितामपि मोहिनि यो नरः यात्राम् कुरुक्षेत्रस्य पुण्यताम् न तस्य न्यूनता काजिदिकलोके परत्र च यिदि श्रीबृहन्नारदीयपुराणे बृहदुपाख्याने उत्तरभागे वसुमोहिनीसंवादे कुरुक्षेत्रमाहात्म्येक्षेत्रप्रमाणादिनिरूपणं नाम चतुष्षष्टितमोऽध्यायः ओम्